युद्धकाण्डं सर्गं ट्वल् श्रीमहादेव उवाच रामो विभीषणं दृष्ट्वा हनुमन्दं तथा गदं लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परान् परितुष्टेन मनसा सर्वानेवाब्रविध्वचः भवतां बाहुवीर्येण निहतो रावणो मया कीर्तिस्थास्यदि वः पुण्या यावच्चन्द्रदिवाकरौ कीर्तयिष्यन्ति भवतां कथां त्रैलोक्य पावनीम् मयोपेदां कलिहरां यास्यन्ति परमां गदिम् एतस्मिन्नन्तरे दृष्ट्वा रावणं पतितं भुवि मन्दोदरी मुखा सर्वा स्त्रियो रावणपालिताः पतिता रावणस्याग्रे शोचन्त्यः पर्यदे वयन् विभीषणः शुचोचार्थशोकेन महतावृतः पदितो रावणस्याग्रे बहुधा पर्यदेव यद रामस्तु लक्ष्मणं प्राह बोधयस्व विभीषणं करो दुभ्रातृसंस्कारं किं विलम्बेन मानद स्त्रियो मन्दोदरी मुख्याः पतिता विलपन्ति निवारयदुताः सर्वा राक्षसी रावणप्रियाः एवमुक्तो धरामेण गाद्विभीषणं उवाच मृतकोपान्ते पतितं मृतकोपमं शोकेन महदाविष्टं सौमित्रिरिदमब्रवीत् यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण त्वं वास्य कथमसृष्टे पुरेदानीमदः परं यद्वत्त्वो यौकपतितासि या कदा यान्ति तद्वशाः संयुज्यन्ते वियुज्यन्ते तथा देहिनः ये धा धाना सुवै धाना ये मेवय मन्ये यदा यसु वैधा नीचूषु भूता प्रेरिता शमयां चे मे वयम चु्याशोद्भ जन्म मृत्यु यदास्मा तस्मा भविष्य ईश्वर सर्वभूतानि भूतैस्सृचति हन्त्यजः निरपेक्षोपि बालवत देहेन देहिनो जीवा देहाद्देहोऽभिजायते बीजादेव यथा बीजं देहान्य इव शाश्वतः देहि देहविभागोऽयमविवेककृधः पुरा नानात्वं जन्मनाश्चक्षयो वृद्धिक्रियाफलं द्रष्टुराभान्ध्यतद्धर्मा यथाग्नेर्दारुविक्रियास्त देहसंयोगादात्मना भान्ध्यसद्ग्रहाद यथा यथा तथा चान्यध्यायतो सत्सदा ग्रहाद प्रसुप्तस्यानहंभावात्तदा भादिनसंसृतिः जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः तस्मान् मायामनोधर्मं जह्यहम्मदाभ्रमम् रामभद्रे भगवी मनो देहात्मशतात्म परे मयाषि बाह्येन्द्रियाजय मनश्शन त्र दोषा रामानन्दे रायोजय देहबुद्ध्या भवेद्भ्राता पिता मादा सुहृत्प्रियः विलक्षणं यदा देहाज्जानात्यात्मानमात्मना तदा कस्य वा बन्धुर्भ्राता मादा पिता सुहृत् मिथ्याज्ञानवशाज्जादा दारागारादयः सदा शब्दादयश्च विषया विविधाश्चैव सम्पदः बलं कोशो भृत्यवर्गो राज्यं भूमिः सुदादयः अज्ञानजत्वात् सर्वे ते क्षणसङ्गमभङ्गुराः अधोत्तिष्ठ हृदारामम् भावयन् भक्तिभाविदम् अनुवर्तस्व राज्यादिभुञ्जन्प्रारब्धमन्वहम् भोधं भविष्यदभजन्वर्तमानमधाचरन् विहरस्व यथा न्यायं भवदोषैर्न लिप्यसे आज्ञापयति रामस्त्वाम् यद्भ्रा दुःसाम्बरायिकं तत्कुरुष्व यथा शास्त्रं रुदतीश्चापि योषितः निवारय महाबुद्धे लङ्गां गच्छन्तु मां चिरं श्रुत्वा यथावद्वजनं लक्ष्मणस्य विभीषणः त्यक्त्वा शोकं च मोहं च राम रामपार्श्वमुपागमद विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः रामस्यैवानुवृत्त्यर्थमुत्तरं पर्यभाषद नृश्यं समनृतं क्रूरं त्यक्तधर्मव्रतं प्रभो नार्होऽस्मि देवः संस्कर्तुं परदाराभिमर्शिनं श्रुत्वा तद्वचनं प्रीतो रामो वचनमब्रवीद मरणान्तानि वैराणि निवृत्तं नः प्रयोजनं संस्कारो ममाप्येष यथा रामाज्ञां शिरसा धृत्वा शीघ्रमेव विभीषणः सान्द्ववाक्यैर्महाबुद्धिं राज्ञीं मन्दोदरीं तदा सान्त्वया मासधर्मात्मा धर्मबुद्धिर्विभीषणः त्वरया चिथ्यां निवेश्य विधिवत्तृथ विधानद आहिता कार्य रावण सेभीषण तथा सर्वक बंधुस्ह मंत्रि ददक विधि विभीषणः। स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भाभिमिश्रितान् उतकेन च प्रदाय विधिपूर्वकं प्रदाय चोतकं तस्मै मूर्ध्ना चैनं प्रणम्य च तास्त्रियोनुनयामास सान्द्वमुक्त्वा पुनः गम्यदामिदा सर्वा विविशुर्नगरं तदा प्रविष्टासुच च सर्वासु राक्षसीषु विभीषणः रामपार्श्वमुपागत्य तदा तिष्ठद्विनीतवद रामोऽपि सह सैन्येन हर्षं लेभे रिपूल् हत्वा यथा वृत्रं शतक्रदुः मातलिश्च तदा रामं परिक्रम्याभिवन्द्य च अनुज्ञातश्च रामेण ययौ स्वर्गं विहायसा तदो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत् विभीषणाय मे लङ्गाराज्यं दत्तं पुरैव इदानीमपि गत्वा त्वं लङ्गामध्ये विभीषणम् अभिषेचय विप्रैश्च मन्त्रवद्विधिपूर्वकम् इत्युक्तो लक्ष्मणस्तूर्णं जगाम सहवानरैः लगां सुवर्णकलश्स जल संयुत अभिषेक शुभम चक्रे राक्षमद तदर जन साध नानोपाएन पभीषण सौमित्रिपा पुस्क दंड प्रणामगरोद्रामस्याक्लिष्टकर्मणः रामो विभीषणं दृष्ट्वा प्राप्तराज्यं मुदान्वितः कृतकृत्यमिवात्मानममन्यदसहानुजः सुग्रीवं च समालिङ्ग्य रामो वाक्यमधा सहायेन त्वया वीर जिदो मे रावणो महान् विभीषणोऽपि लायामभिषिक्तो मयानका ततः प्राहनुमन्दं पार्श्वस्तं विनयान्वितं विभीषणस्यानुमदेर्गच्छ त्वं रावणालयम् जनक्यैः सर्वमाख्याहि हि रावणस्य वधाधिकं जानक्या, जानक्या प्रतिवाक्यं मे शीघ्रमेव निवेदय एवमाज्ञापिदो धीमान् रामेण पवनात्मजः प्रविवेश पुरीं लां पूज्यमानो निशाचरैः प्रविश्य रावणगृहं शिंशपामूलमाश्रितां ददर्शजानकीं तत्र कृशां दीनामनिन्दिताम् राक्षसीभिः परिवृतां ध्यायन्तीं राममेव हि विनयवनदो भूत्वा प्रणम्य पवनात्मजः कृताञ्जलिपुटो भूत्वा प्रह्वो भक्त्याग्रतस्थितः तं दृष्ट्वा जानकी तूष्णीं स्थित्वा पूर्वस्मृतिं जयौ ज्ञात्वा तं रामदूतं सा हर्षात् सौम्यमुखी बभौ सदां सौम्यमुखीं दृष्ट्वा तस्यै पवन रामस्य राम से भाषिद्याचक्र मे दें सुग्रीव विभीषण सहायवान्शलीनरा सैन्य सह लक्ष्मण रावण ससुद्वा सबलम सह मंत्रिवाह कुशल राम राज्येवा विभीषण शुवा भर्म वाक्य हर्ष गगदया गिरा कि प्रिं करोम्य पशा जगत्रये समं ते प्रियवाक्यस्य रत्नान्याभरणानि च एवमोक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः रत्नौकाद्विविधाद्वापि देवराज्याद्विशिष्यते दे हतशत्रुं विजयिनं रामं पश्यामि सुस्थिरम् तस्य तद्वचनं श्रुत्वा मैथिलीप्राहमारुतिं सर्वे सौम्या गुणा सौम्य त्वय्येव रामं द्रक्ष्यामि शीघ्रं मामाज्ञापयदुराघवः तथेदि तां नमस्कृत्य ययौ द्रष्टुं रघुत्तमम् जानक्याभाषितं सर्वं रामस्याग्रेऽण्यवेदयद यन्निमित्तोऽयमारम्भकर्मणां च फलोदयः तां देवीं शोकसन्दप्तां द्रष्टुमर्हसि मैथिलीं येवमुक्दो हनुमदा रामो ज्ञानवताम्बरः माया सीतां परित्यक्तुं जानकीमनले स्थिताम् आदातुं रामप्राह विभीषणं गच्छ राजन् ममांदिकं ममान्तिकं स्नादां विरजवस्त्राढ्यां सर्वाभरणभूषिताम् विभषणी तछ्रुवा जगाम सह मृतिसुृद्धा स्नापय्वा तो मैथि सर्वाभरणस्य शिपिकोत्तमेष्टिकैर्बुपता कंचुकोष्णीशिशुभा तां द्रष्टुमागता सर्वे वानराजनगात्मजां तान्वारयन्तो बहवः सर्वतो वेत्रपाणयः कोलाहलं प्रकुर्वन्तो रामपार्श्वमुपाययुः दृष्ट्वा तां शिपिकारूढां दूरादधरकोत्तमः विभीषण किमर्थं ते वानरान्वारयन्ति हि पश्यन्तु वानरा सर्वे मैथिलीं मादरं यथा पादचारेण सा पादचारेण शनकैरागदा रामसन्निधिं रामोऽपि दृष्ट्वा ता माया सीतां कार्यार्थनिर्मिताम् अवाच्यवादान् बहुश्यः प्राहतां रघुनन्तनः अमृष्यमाणा वचनं राघवोदितं लक्ष्मणं प्रागमे शीघ्रं प्रज्वालय उदासनं विश्वासार्थं हि लोकानां प्रत्ययाय च राघवस्य मदं ज्ञात्वा लक्ष्मणोऽपि तदैव हि महाकाष्ठचयं कृत्वा ज्वालयित्वा सुदाशनं रामपार्श्वमुपागम्य तस्थौ तूष्णीमरिन्दमः तदसीदा परिक्रम्य राघवं भक्तिसंयुधा पश्यतां सर्वलोकानां देवराक्षसयोषिताम् प्रणम्य देवताभ्य ब्राह्मणे मैथि बद्धाजलिपुड़ाचेदवाचा सीपा यहां हृदय निप सर्पदी राघवाद तथा लोकसाद पक एवमुक्त्वा तदासीदा परिक्रम्य खुदाशनं विवेशज्वलनं दीप्तं निर्भयेन हृदा सदि दृष्ट्वा तदो भूतगणा ससिद्धासीदा महावनिगदां भृशार्ताः परस्परम् प्राहुरहो ससीतां रामश्रियं स्वां कथमत्यजज्ञः यदि श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादश सर्गः